It's addictive. Suna gata sunshan I should do. आश्चर्यवत् पश्यति कश्चिदेन आश्चर्यवद् वदति तथैव चान्य आश्चर्यवच्चैः वेद न चैव कश्चित्